सप्तविंशोऽध्यायः वैशम्पायन उवाच एवमुक्तः प्रत्युवाच भगदत्तम् धनञ्जयः अनेनैव कृतम् सर्वमनुजानीहि याम्यहम् त्वम् विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः प्रयया उत्ततरान्तस्माद्दिशम् धनदपालिताम् अन्तर्गिरिञ्च कौन्तेयस्तथैव च बहिर्गिरिम् तथैवोपगिरिञ्चैव विजिज्ञे पुरुषर्षभः विजित्यपर्वतान् सर्वान् ये च तत्र न राधिपाः तान् वशे स्थापयित्वा स धनान्यादाय सर्वशः तैरेव सहितः सर्वैरनुरज च तान् रुपान् उलूकवासिनम् राजन् बृहन्तमुपजग्मिवान् मृदङ्गवरनादेन रथनेमिस्वनेन च हस्तिनाञ्च निनादेन कम्पयन्वसुधामि मां ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा निष्क्रम्य नगरा तस्माद्योधयामास फाल्गुनम् सुमहान्सन्निपातो भूधनञ्जयबृहन्तयोः नशशाकबृहन्तस्तु सोढुं पाण्डवविक्रमम् सो विशह्यतमं रत्नान्यादाय विषह्यतम मौंते उलूक सहितो रनायश सेना उलूकसहत येनाबिंदुम राजु सक्षिपत